नमः सर्वेषां स्वागतं नमस्कारः नमस्कारः नमो नमः अस्तु आ, राधा भगिनी प्रार्थनां वदति वा आरम्भं कुर्मः ॐ सरस्वती नमस्तुभ्यं वरदे कामरूपिणी विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा भूर्भुवः स्वः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो नः प्रचोदयात् धन्यवादा अस्तु धन्यवादा भगिनी धन्यवाद गतसप्ताहे वयम् गीता गीताविषयकपठनं कृतवन्तः अधुना तदस्ति षड्विंशतितमं तत्र पाठ क्रमांक गीतो पाठक्रमाङ्कः प्रसंग इति अधुना तत् एकवारं तस्य पठनं कृत्वा अग्रिमे अभ्यासः इति अस्ति तत्र प्रश्नाः सन्ति प्रश्नानाम् उत्तराणि तस्य विषयकचर्चा अद्यदिने कुर्मः तत्र तश्ना सी आम तत्र स्क्रीन शेयर शेर कौन निमेश अस्कशति तमो पाठ गीत अत दृश्य स्क्रीन दृश्य आं दृश्यते भगिनि गीतोपदेशप्रसङ्गो एकवारं तस्य गीतोपदेशप्रसङ्गः एतस्य पठनं कृत्वा प्रश्नानाम् उत्तराणि एतत् कुर्मः okay. अगस्ट् महोदये भवान् आरम्भं करोति वा पठति वा अस्तु भगिनि गीतोपदेशप्रसङ्गः सम्प्रसङ्गं सावधानम् पठत hmm. महाभारतयुद्धं निश्चितम् आसीत् युद्धं, आसीत युद्धं कर्तुम् इच्छन्तः कौरवाः पाण्डवाश्च कुरुक्षेत्रयुद्धभूमौ समवेताः आचार्यः भीष्मः कौरवाणां सेनपतिः आसीत् द्रुपदपुत्रः धृष्टद्युम्नः पाण्डवानां सेनपतिः आसीत् असङ्ख्याः क्षत्रियाः तत्र सम्मिलिताः आसन् भीष्मः सिंहनादं कृत्वा शङ्खनादं कृतवान् ततः सैनिकाः शङ्खना शङ्खान् हिरीः पाण्डवान् आनकान् गोमुखान् च बाधितवन्तः पाण्डवाः अपि शङ्खनादं कृतवन्तः अर्जुनः स्वस्य रथस्य सारथीं श्रीकृष्णम् उक्तवान् अच्युत सेनयोः मध्ये मम रथं स्थापय अत्र युद्धार्थम् उपस्थितान् सर्वान् अहं द्रष्टुम् इच्छामि इति पर्याप्तं धन्यवादः एतत्सर्वं युद्धविषयकगीताप्रसङ्गस्य पार्श्वभूमि वयं दृष्टवन्तः तत्र एव अत्र लिखितमस्ति भीष्मः प्रथमतः सिंहनादं कृत्वा शङ्खनादं कृतवान् अनन्तरम् अन्यः अन्याः शैसैनिकाः ते अपि तेषां वाद्यानां तत्र ते वादितवन्तः वाद्यान् वादितवन्तः पाण्डवानाम् अपि तत्र शङ्खनादम् अभवत् एवं सर्वत तत्र लिखितमस्ति अनन्तरं श्रीकृष्णम् अर्जुनः वदति हे भगवान् हे अच्युत् मम रथं स्थापय कुत्र उभयोः स्ने स्ने सेनयोः मध्ये एतान् सर्वान् ये युद्धार्थाः युद्धार्थ सं, संजाहा सञ्जाः तेषाम् अहं द्रष्टुमिच्छामि इति सः वदति एतावत्पर्यन्तम् अधुना अग्रिमे अपि पश्यामः भारत भवान् भवान वा अग्रिमम् अग्रिमं परीक्षिदम् अहं भगिनी पठतु कृपया श्रीकृष्णः सेनयोः मध्ये ओके आ, वी ओके सेनयोः मध्ये रथं स्थापित्वा उक्तवान् स्थापयित्वा उक्तवान् पार्थ अत्र समवेतान, सर्वान् कुरुन पश्य इति hmm. अर्जुनः तत्र पितॄन् पितामहान् आचार्यान् मातुलान् भ्रातॄन् पुत्रान् पौत्रान् सखीन् श्वसुरान् सुरदश्च सुर, दृष्टवान् उपस्थितान् तान् तान सर्वान् बंधुन, दृष्ट्वा अर्जुनः परं विषादं प्राप्तवान् सः कृष्ण एते सर्वे मम बान्धवाः एतान् अहं मारयितुं न इच्छामि अहं युद्धं न करोमि इति उक्त्वा बाणम् तनुहु च रथे उपविष्टवान। तदा श्रीकृष्णः तस्य निवारणर्थं गीतोपदेशं कृतवान् सः उक्तवान् अर्जुन त्वम् अचिन्तनीयान् विषयान् mm. मा चिन्तत् mm. चिन्त चिन्तय मा, मा चिन्तय पण्डिताः mm. गतासु अगतासुन् च न अनुशोन् शोचयन्ति शो, mm. अनुशोचन्ति mm. अनु शो mm. त्वमे त्वमपि शोकं एतान सर्वान अह, अहमेव पूर्वं मारितवान् अस्मि त्वं hmm. निमित्तमात्रं भव hmm. कर्म कर्मकरणे तव अधिकारः न तु फले अतः त्वं फलविषये मा चिन्तय कर्म कुरु इति सम्यक् धन्यवादः उपदेशस्य आरम्भम् अधुना इतोपि अस्ति तत् किम् अभवत् तत् श्याम्लाभगिनी पठति वा पठितुं शक्नोति वा अन्तिमां पठामि भगिनि ततः श्रीकृत हा ततः श्रीकृष्णः अर्जुनाय विश्वरूपं दर्शितवान् अर्जुनः दिव्यं चक्षुः प्राप्य श्रीकृष्णस्य देहे सर्वान् देवान् भूतविशेषसमूहान् ऋषीन् ब्रह्मणम् ईश्वरं च दृष्टवान् विश्वरूपदर्शन विश्वरूपदर्शनेन अर्जुनस्य मोघः नष्टः सः ज्ञानं प्राप्तवान् बहव बहवन् बहवन् मम सन्देहः नष्टः अहं तव वचनं करिष्यामि इति उक्तवान् युद्धं कर्तुं सः अभवत् धन्यवादः पर्याप्तं इति अस्ति प्रसंग गीताप्रसङ्गविषयक विषयकी कथा इति अधुना तत्र प्रश्नाः सन्ति वयं तस्य अभ्यासः तत्र आरम्भं कुर्मः आरम्भं कुर्मः अभ्यासः इति विषय विणा भगिनी भवती आरम्भं करोति वा एतेषां प्रश्नानां भगिनि एतेषां शा, एते प्रश्नान् उत्तरं लिखत के युद्धभौ युद्धभूमौ समवेताः के युद्धभूमौ समवेताः अत्र परिच्छेदं दृष्ट्वा पश्यन्तु अत्र परिच्छेदम् अस्ति अधुना प्रश्न अस्ति के युद्धभौमौ ः अत्र पश्यतु कुत्र अस्ति तस्य उत्तरम् कुत्र उच्यन्तः पाण्डवाश्च कौरवाः पाण्डवाश्च युद्धभूमे समवेताः अभवन् अत्र युद्धभूमौ युद्ध युद्ध युद्धभूमौभूम सम अस्त कुछ प्रश्न प्रश्न सेधानम दृश्य से तर चिंतन कथम भवि पश्यश्ने के शब्द तर कौिंगी के नमसकलिंग अधुना के अस्ति इत्युक्ते बहुवचनान्तपदम् अपेक्षितं तथैव अत्र अस्माभिः चिन्तनं इत्युक्ते कौरवाः पाण्डवाः च युद्धभूमौ युद्धभूमि इति पदं तस्य सप्तम्यन्तपदं युद्धभूमौ हा अनन्तरं के के असी, इत्युक्ते तत्र बहुवचना अतः सकंग्युर्म होती समे अहव सी अतः सब अधुना तत्चेद् कथम लेखनमी युद्ध कर्म इच्छ कौरवा पांडवा च युद्धभूम स इति उत्तरम् इत्युक्ते कौरवाः पाण्डवाः तत्र किमर्थं ते तत्र आगताः ते युद्धं कर्तुम् इच्छन्तः सन्ति अतः एवं खलु युद्धं कर्तुम् इच्छन्तः कौरवाः पाण्डवाः युद्धभूमौ समवेधाः अस्तु भगिनि अधुना द्वितीयं प्रश्नं स्वीकरोतु पाण्डवानां सेनापतिः कः आसीत् hmm. आम... अत्र पश्यतु एकनिमिषम् हा पाण्डवानां सेनापतिः हा हा पश्यतु अत्र उत्तरम् अहं प्रथमे द्रुपदपुत्रः दृष्टद्युम्नः पाण्डवानां सेनापतिः आसीत् दृष्टद्युम्नः पाण्डवानां सेनापतिः आसीत् सत्यम् तृतीयः प्रश्नः युद्धे कति क्षत्रियाः उपस्थिताः आसन् युद्धे असङ्ख्याः क्षत्रियाः उपस्थिताः आसन् असङ्ख्याः क्षत्रियाः असङ्ख्याः इत्युक्ते अक्षौहिणी इति एकं तत् संख्या सङ्ख्याविषयेक तत् वयं सर्वे तत असंख्या तत् असङ्ख्याः बहवः क्षत्रियाः तत्र सम्मिलिताः आसन् उपस्थिताः आसन् यथा प्रश्नः अस्ति तथैव उपस्थिताः आसन् हा अग्रिमे धृष्टध्युम्नः कस्य पुत्रः धृष्टध्युम्नः ्रुपदः द्रुपदस्य पुत्रः द्रुपदस्य पुत्रः <laughs> द्रुपदपुत्र सत्यम् mm -hmm. अधुना अग्रिमे सः शङ्खन शङ्खनादं कृतवान् <laughs> शङ्खनादम् भीष्मः कृतवान् भीष्मः शङ्खनादं ah. कृतवान् तत् श्लोके अपि अस्ति तस्य सञ्जनयनं हर्षं पितामहः भीष्मः सिंहनादं कृत्वा शङ्खनादं कृतवान् सत्यम् अग्रिमे सप्तपर्यन्तं करोतु भगिनि अस्तु भगिनि अस्तु कृष्णः अर्जुनं किम् उक्तवान् कृष्णः कृष्णः उक्तवान् पश्यतु हा अत्र समवेतान् सर्वां, कुरुन् पश्य इति उक्तवान् भगिनी हा कृष्णः अर्जुनम् हे पार्थ अत्र समवेतान् सर्वान् कुरुन् पश्य अत्र पश्य इति किं रूपमस्ति भगिनी लकार स्मरति वा पश्यकार तत्र आज्ञा अस्ति आज्ञार्थम् आज्ञार्थ मध्यमपुरुष एकवचने पश्य इति अस्तु अस्तु कुरु पश्य पश्य mm -hmm. अर्जुनम् सर्वान् तर... कः पूर्वमेव मारितवान् हा सर्वान् कृष्णः एव पूर्वमेव मारितवान् कृष्णः एव पूर्व मारितवान् सत्यं सत्य धन्यवादौ उत्तमम् अस्ति धन्यवादः भगिनी अधुना अग्रिमे तत् हा राधा भगिनी भवती पठति वा कृष्णः किमर्थं ततः कृष्णः किमर्थं गीतोपदेशं कृतवान् अत्र पश्यति किमर्थम् इति प्रश्नः श्रीकृष्ण अर्जुनस्य <laughs> <laughs> uh, uh, अज्ञाननिवारणार्थं गीतोपदेशं कृतवान् अज्ञाननिवारणार्थं किमर्थम् अर्जुनस्य अज्ञाननिवारणार्थम् उपदेशं कृतवान् योग्य में, सैनिकाः कान् वादितवन्तः अत्र सैनिकाः शङ्खान् बेरिः पणवान् आनकान् गोमुखान् च बाधितवन्तः hmm. सत्यम् सर्वान् वाद्यान् ते अग्रिमे अर्जुनस्य मोहः कथं नष्टः कथं नष्टः विश्वरूपदर्शनेन अर्जुनस्य मोहः नष्टः अर्जुनस्य मोह विश्वरूपदर्शनेन तत्र विश्वरूपदर्शने स एव सर्वं दृष्टवान् सर्वान् देवान् भूतविशेषसमन् ऋषिन् इत्युक्ते ब्रह्माण्डम् अखिलब्रह्माण्डं तत्र सः दृष्टवान् तेन सः मोहः नष्टः श्रीकृष्णः अर्जुनाय किं दर्शितवान् श्रीकृष्ण अर्जुनाय विश्वरूपं दर्शितवान् अथवा दर्श दर्शितवान् सत्यम् अर्जुनः किमर्थं कौरवान् कौरवान् मारयितुं न इच्छति किमर्थं कौरवान् मारयितुम् न इच्छति मारयितुं न इच्छति किमर्थम् <laughs> ते सर्वे तस्य बान्धवाः आसन् तत् कारणं कृष् अर्जुनः तं मारयितुं न इच्छति इच्छति मम बान्धवाः बान्धवा इत्युक्ते आल् आर् मै रिलेटिव्स् इति तत्र बान्धवा इति जनरिष्टम् अस्ति परन्तु सर्वान् पितामहान् आचार्यान् पुत्रान् पौत्रां, एवं सर्वान् बान्धवाः एव इति विचिन्त्य सः वदति अहं न इच्छामि अग्रिमे अर्जुनः कान् दृष्टवान् अर्जुनः कृष्णस्य देहे सर्वान् देवान् भूतविशेषसमूहान् ऋषीन् ब्रह्माणम् ईश्वरम् च दृष्टवान् तत्र अत्र हा कान् कान दृष्टवान् अस्तु हा अत्र कान् दृष्टवान् अत्रापि कान अस्ति खलु पितॄन् पितामहा युद्धभूमौ एतेषां सर्वेषां दृष्टवान् परन्तु अत्र अत्र तु, तु पश्यामः यथा भवती उक्तवती तदपि योग्यं श्रीकृष्णदे श्रीकृष्णस्य देहे एतान् सर्वान् स दृष्टवान् तत्तु उत्तरद्वयम् द्वयोः एव सम्यक् अर्थः भवति इति योग्यं भवत्याः उत्तरमपि योग्यमस्ति हा अग्रिमे अर्जुनः कृष्णं रथं सेनयोः मध्ये स्थापयितुं किमर्थं किमर्थम् उक्तवान् किमर्थम् उक्तवान् अर्जुनः युद्धार्थम् उपस्थितान् सर्वान् द्रष्टुम् इच्छति तत्कारणं कृष्णस्य रथं सेनयोः मध्ये स्थापयितुम् उक्तवान् सः उक्तवान् युद्धार्थं के के उपस्थितां तेषां सर्वान् अहं पश्यामि अतः सः योग्यं सम्यगस्ति भगिनी धन्यवादः धन्यवादः अत्र एकं वक्तुम् इच्छामि अत्र दृष्टद्युम्नः इति एकं पदमस्ति तत्र दृष्टद्युम्नः इति द्रुपदपुत्रस्य नामधेयः तत् दृष्टद्युम्नः तस्य कः अर्थः कोऽपि जानति वा इति कौरवाणां पाण्डवानां सेनापति तथैव द्रौपद्या द्रौपद्याः बन्धु इति द्रुपदस्य पुत्रः दृष्टद्युम्नः कोऽपि जानाति जयन्ति भगिनि दृष्टव्युम्न इत्युक्ते किं जानाति वा अस्तु वदामि अहं तत्र इतोपि तस्य अभ्यासस्य वयं पश्यन्तु अधुना अस्माकं गीतासोपानं स्तर पार्ट् वन् इति अस्ति अनन्तरं गीतासोपानं पार्ट् टु भविष्यति अनन्तरं गीताप्रवेश् अनन्तरं गीताप्रवेश् द्वितीयः विभागः द्वितीयविभागः पार्ट् वन् द्वितीयविभागः पार्ट् टु एवं सर्वम् अस्ति अस्माभिः तत् पार्ट् टु मध्ये गीताप्रवेशमध्ये तत् इति एकं एकः विषयः अस्ति तस्य अध्ययनम् अस्माभिः करणीयः इति तत् समासविषयक अध्ययनं भविष्यति तदा एतत् सर्वं परन्तु केवल अव अवगमनार्थम् अद्य वदामि धृष्ट इति तत्र अस्ति तप्रत्ययान्तरूपं यथा गतः उक्तः तथैव धृष्ट धृष्ट इत्युक्ते तत्र मूलतः धातुः अस्ति दृश्य प्रागल्भे प्रागल्भे प्रगल्भता इत्युक्ते तत्र मानसिकस्थितिः दर्शयति तत् प्रागल्भ्य प्रगल्भता दृश्यते तत्र द्युम्न इति अस्ति तदस्ति विग्रहरूपेण तदस्ति दिवं मनति मतल तत्र ना इति धातु ना इति अभ्यास दिवमिति स्वर्गलोकमिति तत्र सः तस्य सामर्थ्य तर साम्यम कीदशं तत्ता तथा द्युन दिव मनती नभ्यासे अभ्यासयुक्त दिवे पशन सह तो यदी आसी तस् ये यागत तर प्रगटीकरण अभव्युम तथा द्रौपदी तेषां द्व तयोः प्रगतिकरणं यागभूमि यागभूमौ तत्र यागतः प्रगतिकरणम् अभवत् अतः तत् अभ्यासयुक्तप्रागल्भयुक्तः सः सामर्थ्यवान् इति दृष्टद्युम्नः दिवं मनति इत्युक्ते नाधातो दीवं दिवमित्युक्ते स्वर्गलोकं तत् एवं सर्वम् अस्ति एतत् समासः अस्ति तत् उपपदसमास इति दृष्टद्युम्नः क्षम्यतां बेनि एकं वक्तुम् इच्छामि बहुव्रीहि मध्ये अपि भवति किल भगिनी द्रष्टभिम्नः द्रष्टुं द्युम्नं येन सह द्रष्टुम्नः इति किं किं किमस्ति अत्र भगिनी यथा तत्र उपपद तत्र द्युम्न द्युम्न इति ना धातोः दिवं मनति इति यत्र mm. यत्र एतादृशी स्थितिः अस्ति दृष्ट इति उपपदे धृष्ट mm. इति तप्रत्ययान्तरूपं यत्र यत्र mm. तप्रत्ययान्तरूपम् आगच्छति क्रियापदस्य mm. रूपात् प्राक् तत्र उपपद समाप्त इति अस्ति यथा भवति उच्यते तत् बहुरूहि अपि इत्युक्ते सः एव एकमेव विशेषः दृष्टद्युम्न इति इट्स् नाट् समथिङ्ग् कामन् नौन् देट् एव्रीबडि केन् बि दृष्टद्युम्न तत् एव बहुव्रीः अपि भविष्यति परन्तु यत्र यत्र उपपदस्य स्थितिः उपपदे दृष्टः तप्रत्ययान्तरूप न... mm. दिवं मन, मनति ते नाधातु mm. रूपम् इति स्थितिः अस्ति अतः उपपदसमासलं तत् अवगानार्थं तत्र तस्य पूर्व पूर्ण अर्थं वदतु बहिः एकवारं तत्र धृष्टृष्ट इति धृष् इति धातो धृष् धातोः धृष् तत्र प्रागल्भे इति प्रागल्भे इत्युक्ते किं वदामि तत्र आङ्ग्लभाषायां है लेवेल् अण्डर्स्टाण्डिङ्ग् है लेवल मेच्युरिटि है लेवेल् एफिशियन्सि प्रागल्भे हा तत्र प्रगल्भता इति धृष् प्रागल्भे अनन्तरं द्युम्न धृष्ट तस्य धृष्टधातोः तप्रत्यान्तरूपं धृष्ट अनन्तरं द्युम्नः द्युम्नः इत्युक्ते किं तत्र दीवं मनति न यद्धातु न अभ्यासे इति धातु अभ्यास इत्युक्ते तत्र सातत्यता निरन्तरता एवं सर्वं हा अभ्यासे तत्र दिवं मनति दिवं मनति दिवम् इत्युक्ते स्वर्गलोकम् तस्य जननं कथम् अभवत् तत्र यज्ञ यज्ञवेदीतः सः आगतः इति अस्ति खलु दृष्टदि तद् दीपं मनन्ति अत्र तद् दैवी सामर्थ्ययुक्तं सः इति आसीत् विशेषतः अतः दृष्टदि हा इत्युक्ते तत्र मानसिकस्थितिः वा शारीरिकसामर्थ्यविषयक अलौकिक इति अलौकिकेव अतः तस्य तस्य मरणं न शक्यते कपटनीत्या अनुसृत्य एव अश्वत्थामा तत्र वधं कृतवान् आसीत् खलु बुद्धभूमौ समरप्रसङ्गे तस्य मरणम् अनिश्चिततमेव न शक्यते एव इति महापराक्रमे विशेषगुणसम्पत् युक्त अस् इति सः आसीत् ृष्ट अस्तु इट् इस् रियलि वेरि इण्ट्रेस्टिङ्ग् टु स्टडी समास तत्र काठिन्यं वर्तते परन्तु इट् इस् रियलि वेरि इण्ट्रेस्टिङ्ग् पश्यामः सम्यक् सम्यक् अस्ति धन्यवादः धन्यवादः अस्तु अधुना भवती एव पठतु तत् एतेषां शब्दानां विभक्तिं वचनं च लिखतं एतेषां शब्दानां विभक्तिं वचनं च लिखत यथा पाण्डवानां षष्टिविभक्ति बहुवचनं तेनयोः इति षष्टि द्वितीयविभक्ति द्वितीयविभक्ति देनि आं द्वि द्विवचनं षष्टिद्विवचनं तथैव तथैव सप्तमी अपि भवितुमर्हति सप्तमी वा षष्टिः वा सप्तमी वा द्वयमपि भवितुम् अर्हति तत्र द्विवचनं द्विवचनं भवति युद्धभूमौ अपि षष्टि अपि भवितुमर्हति सप्तमी अपि भवतु द्विवचनं युद्धभू विषयान् विषयान् इति द्वितीयविभक्ति बहुवचनरूपं विषयान् विश्वरूपदर्शनेन तृतीयविभक्ति एकवचनं पुल्लिङ्गरूपं दर्शनः दर्शनेन कौरवाणाम् इति षष्टि बहुवचनरूपं पुल्लिङ्गरूपं पुल्लिङ्गं षष्टि बहुवचनम् अर्जुनाय पुल्लिङ्गं चतुर्थी एकवचनं भगवान् इति प्रथमविभक्ति एकवचनं भगवत् शब्द किलपि शुद्धमाबे भगवत् भगवत् शब्द भगवत् प्रातिपदि तस्य भगवान् इति प्रथम एकवचन सत्यं रते इति सप्तमी शब्त, एकवचनं पुल्लिङ्गशब्दं रते इति सप्तमी एकवचनं पितुः इति बहुवचनं षष्टि बहुवचनं भेरीः इति द्वितीया विभक्ति बहुवचनरूपं बहुवचनं भेरीः सत्यं योग्यं भगिनि धन्यवादः धन्यवाद अधुना अग्रिमे अगस्ट् महोदय पठति वा भगिनि हा एतान् शब्दान् पठित्वा एतेषु hmm. भूतकार्थकानां hmm. शब्दानां पुरतः चिन, चिन् चिह्नं कुरुता यत्र hmm. hmm. उदाहरणार्थम् उक्तवान् इति प्रथमः शब्दः उक्तवान् तत् उक्तवान् इति किं दर्शयति भूतकाल तत् उक्तवतु प्रत्यय कर्तरी भूतकालवाचिक् धातुसाधितविशेषणपदम् उक्तवान् तत् भूतकाल दर्शयति भूतकालं बोधयति तथैव भूतकालार्थकानां शब्दानां पुरतः चिह्नं करणीयमस्ति एकमेकं एकम पठतु अनन्तरं चिन्तयतु तद् भूतकालस्य दर्शनं भवति वा तदा तत् भूतकालवाचिशब्दाः इति अग्रिमे अग्रिमे पठतु किमस्ति अस्तु भगिनि सत्यं सूर्यं Hmm. कृत कृतवन्तः खुत, तस्य एकवचनान्तरूपं किम् अस्ति महोदय कृतवन्तः प्रथमा विभक्ति बहुवचनं प्रथमा विभक्ति एकवचनान्तरूपं किम् अस्ति कृतवान् इति अस्ति खलु कृतवान् इति अस्ति एकवचनम् अस्तु अग्रिमे लोट्लकार सत्यं लोट्लकार मध्यमपुरुषे एकवचनं न भूतकाल सत्य अग्रिमे पृष्टं प्रत्याय इत्युक्ते तत्र यदि कर्तार्थे वा अस्ति चेत् तत् तप्रत्यय तद्भूतकाल तत अपि भवितुमर्हति नो चेत् वर्तमानकाल अपि भवितुम् अर्हति त प्रत्ययन्तरूपम् अस्तु अग्रिमे लोट्लकार मध्यमपुरुषे एकवचनं न भूतकाल सत्यम् भूतकाल अस्ति योग्य योग्यम् चिन्तय लोत्मका मध्यमपुरुष एकवचनं प्रा, प्राप्तवान् भूतकाल सत्यं सत्यमपुरुष एकवचनं कृत्वा प्रत्याय तक तक भूतकाल इति न तत् त्वाप्रत्यय सत्यम् चामि लाट् लाट्लकान् भूतकाल दर्शितवान् भूतकालवान् भूतकालप्रथमपुरुषैकवचनम् स्थापयित्वापत्याय पाश्य लोट्लकार मध्यमपुरुष एकवचनं करोमि लाट्लकारमपुरुष एकवचनम् अनुशोचति लाट्लकार प्रथमपुरुष एकवचनं प्रत्यय चेंजिंग टुपर्गसहित अस् असृज विपसर्गपूर्वक सृजधधत अत तत पिवर्तन लेप प्रत्यय विसृज्य उपसर्गकारणा अग्रिमे वारितवन्तः भूतकाल प्रथमपुरुष बहुवचनम् अभवत् लाण्कारभूतकाल अस्ति प्रथमपुरुष एकवचनं भारितवान् मारि मारितवान् काल अस्ति भाव लोच्लकार एकवचनम् उक्त्वा प्रत्याय उक्त्वा त्वा प्रत्यय धात। धातु धातुः कः वच् बहु सम्यक् महोदय बहु सम्यक् वच् धातोः उक्त्वा इति त्वा प्रत्ययन्त रूप उत्तमं महोदय उत्तमं धन्यवादः धन्यवादः अग्रिमे रमा गीता अम्बिकाभक्तिमहोदय अपि आसीत् तत् गीताभगिनी सः लिखितवती सः वक्तुं न शक्नोति इति एवं खलु गीताभगिनी तत्र आम् महोदय अपि अस्ति धन्यवादः सूचनार्थं धन्यवादः रमा भगिनी अपि अस्ति रमा भगिनी अपि अस्ति खलु अस्तु धन्यवादाः भगिनी रमा भगिनी नमस्ते नमस्ते पाठं पठित्वा ततः आरभ्य पठति रमा भगिनी पाठं पठित्वा एतान् विभक्त्यन्तान् शब्दान् चित्वा लिखता इत्युक्ते पश्यन्तु तत्र ताहा तत् एकम् उदाहरणार्थं तत्र शङ्खानि इति अस्ति अधुना पाठं प्रति गच्छामः तत्र द्वितीयान्तपदाः द्वितीयान्तपदानि कानि तेषां चयनं करणीयं हा वदति वा द्वितीयान्तपदाः पदा द्वितीयान्तपदानि एव अहम् अस्तु अस्तु किञ्चित् कालपर्यन्तम् अस्तु अस्तु चिन्ता मास्तु किञ्चित् कालपर्यन्तं तत्र श्रवणं करोतु अनन्तरं वदतु चिन्ता मास्तु अस्तु अस्तु अस्तु चिन्ता मास्तु भारत् भारतमहोदयः भवान् वदति वा द्वितीयान्ताः के के इति वदति वा हा धन्यवादः <स्थिर्ण> शङ्खनादं शङ्खनादमपि अस्ति तथैव भेणीः अपि द्वितीयान्तम् एव अग्रिमे यथा भवान् उक्तवान् तत् शङ्खनादम् अग्रिमे तदपि अस्ति द्वितीयान्तपदमेव उपस्थितान् सर्वान् अपि द्वितीया उपस्थितान् या बहुवचनं या द्रष्टुं द्रष्टुमिति न परन्तु समवेतान् सर्वान् द्रष्टुमिति अव्ययपदमस्ति तुमन् तुमुन् प्रत्ययान्तपद रथं स्थापि रथम् आम् रथमपि द्वितीयान्तपदं सत्यम् अत्र समवेतान् सर्वान् आम् तत्र समवेतान् सर्वान् कुरु सर्वाणि पदानि कथमस्ति कुरुन् एतस्य पदस्य समवेतान् सर्वान् विशेषणपदान् अतः गुरु mm. यदा द्वितीया द्वितीयान्तबहुवचनान्तपदं तथैव सर्वान् अपि द्वितीया बहुवचनान्तपदं समवेतान् अपि द्वितीया बहुवचनम् इति अस्ति okay, yeah. अग्रिमे अग्रिमे सन्ति वा कानिचन पदानि पिता महान् आचार्यान् मातुलान् पातॄन् पुत्रान् पौत्रान् सखीन् स्वसुरान् सुहृदः सुहृदश्च सुहृदः तत् कथं सुहृत् इति प्रातिपदिक अस्ति तत् सुहृदः एव तस्य द्वितीया द्वितीया प्रथमा समानेत अग्रिमे अस्ति बन्धुन् सर्वान् परमम् विषादम् एतान् सत्यम् मारयितुं न तत्तु मुन्प्रत्ययुद्धम् आं युद्धं न करोमि किं न करोमि युद्धं न करोमि द्वितीयं सत्यं सत्यं बाणं सत्यं तदा श्रीकृष्ण तस्य गीतोपदेशं सत्यं गीतोपदेशं सत्यम् चिन्तयितासन् उभक्तासन् श्लोकम् शोकं तस्मात् प्राक् गतासुन् अगतासुन् अपि द्वितीया कथं गतासु right. अगतासुन् right. ये जीविताः ये मृताः mm -hmm. असु इत्युक्ते तत् प्राणधार प्राण इति असु खलु तत् असु येषां गतः असु येषां न गतः इत्युक्ते ये जीविताः ये मृताः तेषां विषये पण्डिताः न अनुसूचन्ति इत्युक्ते तत्र गतासु गतासु अपि द्वितीयान्त बहुवचनान्त पदानि okay. mm -hmm. अनन्तरं so, शोकमपि द्वितीया सत्यं mm -hmm. सत्यं mm -hmm. सर्वान् एतान् mm -hmm. uh, mm -hmm. uh, त्वं mm -hmm. निमित्रमात्रम् mm -hmm. निमित्तमात्रमिति भवति त्वम् इति प्रथमशब्दस्य त्वम् इति प्रथम तत्र श्रीकृष्णार्जुनेन विश्वरूपं विश्वरूपं योग्यं दिव्यं सर्वान् सर्वान् देवान् भूतविशेषसमूहान् सत्यं ऋषिन् सत्यम् ब्रह्माणं द्वितीया द्वितीया ज्ञानम् प्राप्तवान् अहं वचनं युद्धं तावत् युद्धं युद्धं कर्तुम् इति तु सम्यक् अस्ति सम्यक् अस्ति बहु सम्यक् उत्तमं तत तत हा अग्रिमे तत् अम्बिकापतिमहोदय तत् इति एकः प्रश्नः अस्ति षष्ठ्यन्ताः षष्ठ्यन्ताः शब्दान् चित्वा इत्युक्ते तत् कौरवाणाम् इति उदाहरणार्थं दत्तमस्ति षष्ठिविभक्ति बहुवचनान्तं तथैव तत्र षष्ठिविभक्ति दृश्यते एतान् सर्वान् पदानां तत्र ग्रहणं कृत्वा वदति कुत्र कुत्र अस्ति षष्ठिविभक्ति हा युद्धं कर्तुम् इच्छन्ति कुक्षेत्रयुद्धभूमौ समावेतः अभवत् आचार्यः भीष्मः योग्यं कौरवाणां षष्ठी बहुवचन अग्रिमे सेनापतिः आसीत् पृष्ठतिनां सत्यं पाण्डवानां षष्ठी विभक्ति बहुवचन योग्यम् सङ्गः क्षत्रियाः तत्र सम्मिलिताः आसन् भीष्मः सिंहनादं कृत्वा शङ्कनादं कृतवान् ततः सोनिसैनिकाः शङ्कान् तत्सर्वं द्वितीयान् पाण्डवाः अपि शङ्खनादं कृतवन्तः अर्जुनः स्वस्य रथ रथस्य स्वस्य रथ स्वस्य रथस्य षष्टि एकवचनं योग्यम् स्वीकृतवान् उक्तवान् अर्जुनः अर्जुनः ी मम रथं सत्यमेव सेनयोः अत्र सप्तमी परन्तु षष्ठी अपि भवितुमर्हति षष्टिद्विवचनान्तमपि सेनयोः एव भवति सत्यम् अत्र सप्तमी एव सप्तमी अत्र सप्तमी मध्ये इति अस्ति अतः हम लोकेशन् लोकेटिव् सप्तमीयानहं दृष्टवान् दृष्टम् श्रीकृष्णः सेनयोः सेनयोः रथं स्थापित्वा उक्तवान् तद् तान् सर्वान् कुरुन् तस्य इति अर्जुनः तत्र पितॄन् पितामहान् अप अपस्थितवान् तान् सन् बन्धून् दृष्ट्वा अर्जुनः परं विशादं प्राप्तवान् सः कृष्णः एते सर्वे मम बान्धवाः एतान् अत्र मम अपि अस्ति खलु मम सम्बन्धवाचि अस्ति मम मम बान्धवाः मम अपि एतानां मारयितुं न इच्छामि अहं युद्धं न करोमि इति उक्त्वा बाणं धनुः च विसृज्य रथे उपस्थितवान् रथे सप्तमी रथे सप्तमी आ, तदा श्रीकृष्णः तस्य आज्ञाननिवारणार्थम् अज्ञाननिवारणार्थं गीतोपदेशं कृतवान् सः उक्तवान् अर्जुनः कुत्र mm. अर्जुनः uh -huh. त्वम् अचिन्तितवान् <coughs> विषयान् मा चिन्ति पण्डिताः गतासून् आकतासून् च अनुसोचन्ति त्वं त्वमपि शोकं मा कुरु एतान् सर्वान् अहमेव पूर्वं मारितवान् अस्मि त्वं निमित्त निमित्तमात्रं भवतः त्वं फलविषये मा चिन्तय कर्म कुरु इति तदा श्रीकृष्णः अर्जुनस्य विश्वरूपं दर्शितवान् अर्जुनः कृष्ण प्राप्य श्रीकृष्णकृष्णस्य आं श्रीकृष्णस्य सम्बन्धवाचिषष्टि कस्य देहे श्रीकृष्णस्य देहे सत्यदे भूतविशेष सम्हान् श्रीन् ऋषीन् ब्राह्मणं ईश्वरं च कृतवान् विश्वरूपपदेन विश्वरूपपदा अर्जुनस्य अर्जुनस्य सत्यं भगवतं भगवान् मम मम मम योग्यं बहु सम्यक् मम सम्बन्ध अहं तव वचनं करिष्यामि इति उक्तवान् युद्धं कर्तुं सः तत्र तव अपि अस्ति खलु महोदय तव तव अस्ति आं पर्याप्तं तत् तव मम अपि षष्ठीदश सम्बन्धवाचि षष्ठी उत्तमं महोदय उत्तमं योग्यम् अधुना अन्तिमं तत् अस्ति अहं मन्ये सप्तम्यन्तः तत् सप्तम्यन्तः रमा भगिनी करोति सप्तम्यन्तः पदानि यत्र यत्र स्थानम् अस्ति सूचितं तत् स्थानदर्श कुत्र तत् कुत्र कुत्र स्थानं दर्शयति पश्यन्तु अत्र कुरुक्षेत्रयुद्ध अग्रिमे अग्रिमे पश्यन्तु श्रीकृष्णः तत् अर्जुनः वदति खलु हे श्रीकृष्ण हे अच्युत् सेनयोः मध्ये सेनयोः द्वयोः सेन इत्युक्ते तत्र स्थानम् मध्य दर्शनी लोकेटिव केप्तमी अस्त सैन्य अग्रिमे अग्रिमे कुछ सप्तमी तहम युद्धम न तत तत्वाक्य पठतु भगिनी अहम युद्धम न कौ अत्र अर्जुनः तत्र पितॄन् इति परिच्छेदम् तत्र अन्तिमा अन्ति तत्तु अभवत् परन्तु अन्तिमा अहं युद्धं न करोमि इति उक्त्वा अन्तिमा पंक्ति अस्ति खलु अहं युद्धं न करोमि इति उक्त्वा बाणं धनुः च विसृज्य रथे उपविष्टवान् हा रथे इति सप्तमी पुनः एकवारं स्थानं दर्शयति कुत्र उपविष्टवान् रथे हा अतः तत्र अपि सप्तमी हा अग्रिमे अपि कुत्र कुत्र पश्यन्तु अग्रिमे परिच्छेदे अपि तत् कर्मकरणे तव अधिकार तत् पठतु कर्म करने कर्मकरणे अपि सप्तमी फले अपि सप्तमी कर्मकरणे तव अधिकारव न तु फले तत्रापि सप्तमी अतः त्वं फलविषये मा चिन्तय फलविषये तत्रापि सप्तमी स्पष्टमस्ति रमा भगिनी अस्तु हा यत्र यत्र स्थान अग्रिमे अपि पश्यतु कुत्र अस्ति वा न अग्रिमे कुत्र अपि न देहे देहे दे दे दे हा सत्यं सत्यं धन्यवादः महोदय हा श्रीकृष्णस्य देहे दे कुत्र कुत्र विश्वरूपं कृष्णीकृ श्रीकृष्णस्य देहे तद्देहे इति सप्तमी पुनः एकवारं हा अधुना स्पष्टमस्ति भगिनी रमा भगिनी अस्तु अस्तु धन्यवादः भगिनी धन्यवादः कथायाः समयः कथां प्रति गच्छामः वयम् अस्तु तद् दीर्घा कथा भवति वा लघुकथां स्वीकुर्मः एतत् स्वीकुर्मः अस्तु विना भगिनी भवती आरम्भं करोति भगिनि करोमि किञ्चित् तत्र हा शीर्षकं पठतु एकवारं प्रथमवारं सत्यं ब्रूयात् प्रियं ब्रूयात् हा इति अस्ति <coughs> किमेतत् तस्य अर्थः कित् पश्यामः हा पठतु कस्मिंश्चित् राज्ये कश्चन महाराजः आसीत् शकुनादिषु तस्य महान् विश्वासः सः सन्तोषेण hmm. राज्यं परिपालयति स्म hmm. <coughs> अपि पठामि वा द्वितीयमपि पठतु अनन्तरं स्वशब्दैः प्रयत्नं करोतु अस्तु एकदा सः महाराजः रात्रौ hmm. भूरिभोजनं कृत्वा ताम्बूलसेवतं ताम्बूलसेवनम् च कृत्वा निद्रामग्नः mm. आसीत् निद्रायां सः किञ्चित् स्वप्नम् दृष्टवान् तस्मिन् स्वप्ने सः दृष्टवान् यत् स्वस्य मुखे स्थितेषु दन्तेषु एकम् विहाय अन्ये सर्वे अपि दन्ताः पतिताः सन्ति किम् mm. अभवत् वदतु एकं राजः आसीत् एकः शकुनादिषु तस्य महान् विश्वासः तस्य महान् शकुनादिषु विश्वासः आसीत् शकुनादिषु इत्युक्ते गुड् विश्वासः सः सन्तोषेण राज्यं परिपालयति करोति स्म एकदा महाराजः एक एकं रात्रौ रात्रिभोजनं भुक्त्वा निद्रामग्नः अभवन् ताम्बूलसेवनसेवनपर्यात् निद्रामग्नः अभवन् निद्रायाम् ताम्बूलसेवनं तत्र भव तत्र इण्डिकेटिङ्ग् लेविश् फूड् इति भूरिभोजनम् अनन्तरं ताम्बूलसेवनम् अनन्तरं तत् पक्वान्नयुक्त मिष्टान्नयुक्तभोजनम् एवं सर्वं तस्मिन् समये इति तथा प्रथा एव आसीत् खलु तत्र भोजनस्य विषयकमिष्ठान्नानि भवेत् पक्वान्नानि भवेत् पक्वान्नानि भवेत् एवं सर्वं तथैव अस्तु भगिनि अतः भोजनः भोजनस्य पर्याप् निद्रितवान् पश्चात् निद्रायाम् एकं स्वप्नं दृष्टवान् स्वप्ने Um, uh, uh, स्वप्ने सः दृष्टवान तस्य सर्वान् दन्तान् एकं विहाय सर्वे दन्तान् पतिताः अभवत् इत्युक्ते स्वप्ने सः दृष्टवान् तस्य मुखे तस्य एकः एव दन्तः शेषः अन्याः दन्ताः पतिताः इति तस्य विश्वासः आसीत् शकुनादिषु तत्र एवं सः दृष्टवान् मम एकः एव दन्तः शेषः अन्येषां दन्तानां पतनम् अभवत् इति सः स्वप्ने दृष्टवान् एतावत् अस्तु पर्याप्तं योग्यं धन्यवादः धन्यवादः अग्रिमे श्यामलाभगिनी पठति वा परेद्यवी श्यामलाभगिनी अस्ति वा अस्तु राधाभगिनी पठति वा परेद्यवी प्रातःकाले तथा आरभ्य भगिनी श्यामलाभगिनी नास्ति भगिनि अस्तु अस्तु परेद्यवी प्रातःकाले उत्थाय महाराजः किञ्चित् mm -hmm. uh, uh, पण्डितम् आहूतवान् mm -hmm. तस्मै तस्मै स्वप्नवृत्तान्तं निवेदितवान् mm -hmm. ततः एतस्य स्वप्नस्य आशाय आशयः कः इति तं पृष्टवान् mm -hmm. पण्डितः किञ्चित् uh, mm -hmm. कालं विचिन्त्य उक्तवान् महाराज महाराज भवतः स्वप्नस्य आशयः अयम् अस्ति यत् भवतः सर्वाणि अपि मित्राणि भवतः मरणात् पूर्वमेव मरणं प्राप्स्यन्ति इति प्राप्स्यन्ति इति प्राप्स्यन्ति इति प्रातःकाले श्वः प्रातः श्वः प्रातःकाले उत्थाय महाराजा एकपण्डितम् आहूतवान् स्वप्नविषये hmm. निवेदितवान् स्वप्नस्य अर्थ किम् इति पृष्टवान् hmm. एकं निमिषं भगिनि अत्र प्रिंटिंग मिस्टेक वा उत्थाय वा अर्थाय तत् टैपो अस्ति सत्यं तत् सत्यं सत्यं उत् उपसर्गपूर्वकस्थाधातु अनन्तरं ले प्रत्ययन्तरूप उत् इति अत् इति नास्ति महाराजः कश्चित् पण्डितम् तत्र कञ्चित् या, इति अस्ति तत्र कञ्चित् कम कम् इत्युक्ते तु न इत्युक्ते प्र द्वितीया विभक्ति कम् पण्डित इति द्वितीया कम् पण्डितं कञ्चित् कञ्चित् भवति मकारस्य परस्वर्णभूत्वा कञ्चित् इति भवति किमर्थं तच्च इति अतः मकारस्य प्रथमतः तु मकारस्य अनुस्वारः भवति क उपरि अनुस्वारः आगच्छति अनन्तरम् अनुस्वारस्य यै परसवर्ण अनुस्वारस्य परसवर्ण इत्युक्ते च वर्गे च च इति अस्ति अन्तिम अनुना अनुनासिकवर्णः अतः तत् अनुस्वारस्य कञ्चित् इति भवति पण्डिता आहूतवान् अस्तु धन्यवादः भगिनि हा अस्तु स्वागतं हा तस्मै स्वप्नवृत्तान्तम् निवेदितवान् अत्र तस्मै इति भगिनी विभक्ति का तस्मै इति तस्मै तृतीया अस्ति वा शिवाय नमः चतुर्थी एतस्य स्वप्नस्य आशयः कः इति तं पृष्टवान् अग्रिमे पण्डितः कि उक्तवान् वदतु तस्य पण्डित किञ्चित् कालं चिन्त चिन्तितवान् अनन्तरम् उक्तवान् स्वप्नस्य अर्थः अस्ति Uh, तस्य मरणापूर्वं तस्य सर्वे मित्र uh, मित्राणि uh, uh, मरणम् अभवत् तेषां सर्वेषां मरणं भवतः मरण मरणात् प्राक् प्राक पूर्वम् एव भवितुमेव uh, इत्युक्ते भवतः सर्वाणि मित्राणि भवतः मरणात् प्राक् एव तेषां मरणं भविष्यति इति इत्युक्ते भवतः एव जीवितः परन्तु यदा भवतः जीवितः तस्मात् प्राक् अन्येषां मित्राणां मरणम् इति अर्थम् एकः एव दन्तः शेषः इत्युक्ते अन्य अन्या अन्यान् मित्राणि अन्येषां मित्राणां मरणं भवतः मरणात् पूर्वं भवेत् इति अस्तु सत्यं योग्यं धन्यवादः भगिनी अधुना अधुना अग्रिमे हा जयन्तीभगिनी पठति वा एतत् श्रुत्वा तथा आरभ्य आम् भगिनी एतत् श्रुत्वा महाराजः कुपितः अभवत् सः तं पण्डितं कारागृहं प्रेषितवान् एतत् वाक्यं श्रुत्वा राजा कुपितः अतः तम् पण्डितम् कारागृहम् प्रेषितवान् तदनन्तरम् महाराजः स्वस्य अम अमात्यम् आहूतवान् तमपि स्वप्नवृत्तान्तम् उक्तवान् स्वप्नस्य आशयः कः इति पृष्टवान् च तदनन्तरम् राजा स्वस्य मन्त्रीम् आहूतवान् तमपि स्वप्नवृत्तान्तं स्वप्नस्य विषयम् उक्तवान् स्वप्नस्य आश आशयः कः इति तं मन्त्रीं पृष्टवान् च अत्र अत्र भगिनी आहूतवान् उक्तवान् पृष्टवान् तेषां प्रत्ययाणां विषये किं वदति न न प्रत्ययः प्रेषितवान् अपि तत्र तव तु प्रत्ययः इत्युक्ते अधुना तत् वयं पठितवन्तः तत् तव तु प्रत्यय कर्तारं बोधयति वा कर्मपदस्य बोधनं करोति कर्तारं बोधयति वे तत् कर्तरि भूतकालवाचि धातुसाधितविशेषणपदम् अत्र पश्यन्तु सर्वे तत् पण्डितं प्रेषितवान् वस्तुतः mm. तत्र सम्भाषणे वा अत्र कथायामपि प्रेषितवान् आहूतवान् उक्तवान् पृष्टवान् तत्र क्रियापदसदृशः परन्तु mm. मूलतः एतानि सर्वाणि क्रियापदानि न भवन्ति तत् विशेषणपदानि एव हा वस्तुतः तं पण्डितं कारागृहं प्रेषितवान् आसीत् अमात्यम् आहूतवान् आसीत् उक्तवान् आसीत् पृष्टवान् आसीत् इति भवेत् हा अस्तु तावदेव अग्रिमे अपि हा तत् अमात्यः अमात्यः अतीव चतुरः आसीत् सः विचिन्त्य उक्तवान् राजन् शुभसूचकः स्वप्नः अस्ति एषः अमात्यः तस्य राजा राजायाः राज्ञः मन्त्रिः बहु अतीव चकुरः आसीत् अतः सः उक्तवान् किञ्चित् कार कालं विचिन्त्य उक्तवान् राजन् शुभसूचकः एव स्वप्नः भवति इति एतस्य आशयः अस्ति यत् तत् उक्तवान् एतस्य आशयः अस्ति यत् भवान् भवतः मित्राणाम् अपेक्षया दीर्घकालं जीविष्यति भवान् अतीव mm. दीर्घ दीर्घायुष्मान् mm. अस्ति इति mm. मन्त्री उक्तवान् एत एतस्य एत, एतस्य स्वप्नस्य अर्थः अस्ति यत् भवान् भवतः मित्राणां mm. राज्यस्य मित्राणाम् अपेक्षया दीर्घकालं जीविष्यति भवान, यत् इच्छति तावदेव भवति दीर्घकालं जीविष्यति भवतः मित्रः मित्राणां भवान् अतीव दीर्घायुष्मान् अपि अस्ति इति मंत्री, उक्तवान् अमात्यः उक्तवती तावत् पर्यन्तं योग्यन्यवा दीर्घायुष्मान् भवति आयुष्मान् आयुष्मान् अत्रापि मतुप्रत्यय दीर्घायुष्मान् मित्राणाम् अपेक्षया दीर्घकालं भवतः आयुष्यः भवतः आयुः इति अस्तु अग्रिमे अग्रिमे तत् भारतमहोदय भवान् पठति वा धन्यवादः धन्यवादः भगिनि हा पठतु अमात्यस्य अमात्यस्य वचनं श्रुतवतः महाराजस्य महान् सन्तोषः जातः तस्मै प्रभूतं धनम् उपायनम् च दत्त्वा सः hmm. hmm. प्रवृत्तं सर्वं ज्ञात्वा पंडितः hmm. आश्चर्यचकितः जातः mm. सः सः महाराजं पृष्टवान् mm. राजन मम अमात्यस्य च कथनस्य आशयः समानः आसीत् mm. तथापि किमर्थं मम कृते कारागृहवासः mm. दत्तः mm. अमात्यस्य तदा महाराजः उक्तवान् बृयात् इति किम् अभवत् अमात्यस्य उत्तरं तु वयं ज्ञातवन्तः किं शुभसूचकः स्वप्नः गुड् ओमेन् इति भवतः मित्राणाम् अपेक्षया दीर्घकालं जीविष्यति आयुष्यमान अस्ति दीर्घायुष्मान् अस्ति mm. अग्रिमे so किम् अभवत् महोदय mm. प्रसन्न सन्तोषः सं, जातः mm. तस्मै तस भूतं धनं mm. धनं उपायनं च दत्तवान् आम् आम् सहतं सकृतवान् सत्कृतवान् इत्युक्ते सब्णु। सत्कारं सत्कार okay, आदरातिथ्यं मानसन्मानं दत्तवान् इति महाराज धनम् उपाय सत्कृतवान् ददाति उपायनम् इत्युक्ते पारितोषकम् इति सर्वं दत्वा सः सत्कारमपि कृतवान् कृतवान् प्रवृत्तं सर्वं ज्ञात्वा पण्डितः सर्वपण्डितः आश्चर्यचकितः जातः सः सः पण्डितः महाराजं पृष्टवान् राजन् मम आत्मा त्यस्य च कथनस्य आशयः समानः आसीत् राजन् मम अमात्यस्य कथनस्य समान आसीत् hmm. तथापि किमर्थं मम कृते कुरा कारागृहवास ततः अमात्यस्य hmm. च कृते उपाय उपायनं दत्तं अमातस्य च कृते उपायनं दत्तम् अत्र अत्र किम् अभवत् पश्यन्तु भवान् भवतः मित्राणाम् अपेक्षया दीर्घकालं जीविष्यति अत्र कः वदति भवतः सर्वाणि अपि मित्राणि भवतः मरणात् पूर्वमेव मरणं प्राप्स्यति अर्थदृष्ट्या तत्र भेदः अस्ति वा no. इत्युक्ते राजा तत्र राजा एक एकमेव तत्र अवशिष्टः तस्मात् प्रा अन्यान् मित्रा अन्यान् मित्राणाम् अन्येषां मित्राणां मरणं भविष्यति इति स्वप्नस्य आशय तथैव मित्राणाम् अपेक्षया भवतः आयुः दीर्घकालम् इति आयुः अधिकमस्ति समानः एव खलु hmm. अर्थदृष्ट्या तत्र भेदः अस्ति वा न no. अर्थदृष्ट्या तत्र कोपि भेदः न परन्तु अमात्यस्य कृते उपहारं, उपा, उपायनं धनं एवं सर्वं तत्र सत्कारम् परन्तु मम कृते कारागृहवासः hmm. किमर्थम् hmm. एतत् आशयदृष्ट्या तत्र कोऽपि भेदः न कथनस्य आशयः तु समानः अर्थदृष्ट्या तत्र भेदः न एतत् सर्वं किं बोधयति नृपस्य आयुः राज्ञः आयुः अधिकं hmm. मित्राणि सर्वाणि मित्राणि अपेक्षया राज्ञः आयुः अधिकं तथैव बोधः परन्तु hmm. शब्द शब्द से शब्द विषय या योजना तिन्नता वर्त्य वाक्यप्रयोगे तथा पंडित वाक्य प्रयोग त्रवद वाक्यरचनाया भेद अतः एक कारागृहवास एकते मन सन्मान सत्कार महाराजस्य उत्तरमस्ति सत्यं ब्रूयात् ब्रूयात् प्रियं ब्रूयात् हा तत्र सत्यं ब्रूयात् प्रियं ब्रूयात् इति वचनं सत्यं ब्रूयात् ब्रूयात् इति ब्रूधातु तस्य विधिलिङ्गिरूपा रूपान्तरं यात् ब्रूयात् इत्युक्ते वदेत् इति हा यथा वदधातुः कथं वयं वदामः विधिलिङ्गरूपाणि वदेत् तथैव हा इत्युक्ते सत्यं ब्रूयात् प्रियं ब्रूयात् स्पीक् ट्रूथ् इत्युक्ते सत्य तु सत्यस्य एव वचनानि सत्यवचनानि भवेयुः परन्तु कथं प्लेजेण्ट् तत्र प्रियकर प्रियकरं भवेत् इत्युक्ते हार्श् ट्रूथ् इति भवति चेत् तस्य सन्मानं वा मानसन्मानं न लभ्यते तस्य कृते ट्रुत् इस् रिक्वार्ड् बट् इट् शुड् नाट् बि अन्प्लेसेण्ट् ट्रुत् इति सत्यं ब्रूयात् परन्तु प्रियं ब्रूयात् अग्रिमे अस्ति सत्यं ब्रूयात् प्रियं ब्रूयात् न ब्रूयात् सत्यम् अप्रियं प्रियं च नानृतं ब्रूयात् एषः धर्मः सनातनः इति अस्ति सर्वे जानन्ति खलु सर्वे जानन्ति वा सत्यं ब्रूयात् जानन्ति खलु इत्युक्ते तत्र पश्यन्तु सत्यं ब्रूयात् प्रियं ब्रूयात् न ब्रूयात् सत्यम् अप्रियम् अप्रियम् एतादृशं सत्यं वचनं न भवतु इति न भवेत् इति हा न ब्रूयात् न भवेत् प्रियं च न अनृतं ब्रूयात् इत्युक्ते प्रियं वचनं परन्तु प्रियं वचनं तस्मिन् सत्यविषये किमपि नास्ति ऋतम् इत्युक्ते सत्यं तत् गणपति अथवशीषत ऋतं वच्मि सत्यं वच्मि इति अस्ति ऋतम् इत्युक्ते सत्यम् अनृतम् इत्युक्ते असत्यं न अनृतं ब्रूयात् प्रियं वचनं भवेत् अतः प्रियं वचनं प्रियं भवेत् अतः तत्र तस्य असत्यं वदतु इति न आशयम् अनृतं न भवेत् एषः धर्मः सनातनः सनातनधर्म इत्युक्ते तत्र धर्म इत्युक्ते धर्म इति चिन्तनं न तत् सनातन इटर्नल् ड्यूटी इटर्नल् पार्ट् आफ् अवर् ड्यूटी सदैव तथैव भवेत् मनुस्मृति इति ग्रन्थे एषः श्लोकः अस्ति मनुस्मृति इति सत्यं ब्रूयात् भवन्तः जानन्ति न सर्वे जानन्ति न uh, एकनिमिषम् अहं दर्शिष्यामि एकनिमिषं तद्दर्शिष्यामि अत्र एकनिमिषम् अत्र अस्ति तत्र एकनिमिषम् पुरतः भवतः पुरतः स्थापयामि <laughs> दृश्यते स्क्रीन् सत्यं ब्रूयात् प्रियं ब्रूयात् न ब्रूयात् सत्यम् अप्रियं प्रियञ्च न अनृतं ब्रूयात् प्रियं न अनृतम् ऋतं सत्यम् अनृतम् असत्यम् तत् न भवेत् प्रियं भवेत् अतः अनृतम् इत्युक्ते तत्र स्तुति करणीया परन्तु स्तुति तत् योग्यता नास्ति तर्हि अपि किं किमर्थं तत् स्थिति प्रियं प्रियं प्रियकारिणी प्रिया भवेत् अतः तत् तत न एतत् मा करोतु प्रियञ्च न अनृतं ब्रूयात् एष धर्मः सनातनः सत्यं ब्रूयात् प्रियं ब्रूयात् न ब्रूयात् सत्यम् अप्रियं सत्यं भवेत् परन्तु तत् अप्रियं न भवेत् इति अस्ति परन्तु एतस्य एषः अर्थः न कि तत् अनृतं वदतु तत् न प्रियञ्च न अनृतं ब्रूयात् न ब्रूयात् एषः धर्मः सदा स्पष्टमस्ति सर्वेषाम् इति वचतम् आम् आम् अस्तु अधुना निमिषाः सन्ति तत्र एकमेकं वदन्तु अम्बिकापतिमहोदय भारतमहोदय ओगस्टमहोदय कथायाः विषये बोधः कः वदति वा अहं वदामि शब्दस्य शब्दस्य वीर्यम् अतीवमहत्त्वं भवति अतः अस्माकं चिन्तनं सच्चिन्तनं भवन्तु कार्यमपि सिद्धिं भवति सत्यम् इत्युक्ते उदाहरणार्थमहं वदामि तत्र शिक्षक शिक्षकः अस्ति छात्रः अस्ति तत्र छात्र छात्रः परीक्षायां तत् मूल्याङ्कनम् अभवत् ततः न्यूनं परिणामदृश्या न्यूनं मूल्याङ्कनं न्यून न्यूनता तत्र दृश्यते यदा शिक्षकः वदति न्यूनम् एव तत्र अङ्कान् भव भवान् तु न्यूनान् अङ्कान् प्राप्तवान् कथमेतत् परन्तु यदा सः वदति किमर्थं कि तत् ह इतोपि अधिकं परिश्रमं करोतु तेन अङ्कानां वर्धनं भवति पश्यन्तु मूलतः तु अर्थदृष्ट्या समाना एव हा तत्र न्यूनान् अङ्कान् प्राप्तवान् आसीत् छात्रः परन्तु किमर्थम् यदा उपदेशः एव करणीयः अस्ति तत् यदा शिक्षकः वदति उपदेशप्रसङ्गे अस्तु भवान् इतोपि परिश्रं परिश्रमं करोतु तेन अङ्कानां वर्धनं भवेत् ओ भवान् तु न्यूनान् अङ्कान् एव प्राप्तवान् आसीत् कथम् एतत् न द्वयोः मध्ये भेदः अस्ति खलु भवत्या भवत्याः वाक्यं भवत्याः वार्तामिव भवत्याः वर्गः तावदेव भवति खलु बेनि भवता अस्माकं कृते तावदेव सत्यं सत्यं बृह्यात् प्रियं बृह्यात् एव धन्यवादः धन्यवादः पीडाभगिनी रमा भगिनी एकमेकं सर्वे वदन्तु स्वशब्दैः मधुरवचनं सर्वान् प्रियमस्ति तत्कारणं सर्वदा सत्यमपि मधुरवचनेन करणस्य प्रयत्नं करणीयम् आम् आम् सत्यमपि प्रियका प्रिय प्रिय प्रियवचनानि तत्र प्रियकारिणी भाषा इति परन्तु तत्र मिथ्यास्तुतिः न भवेत् मिथ्यास्तुति असत्यं वचनानि इति न, न भवेत् असत्यं न भवेत् वाचि असत्यं न भवेत् योग्यं योग्य प्रामाणिकर्म करोति हा प्रामाणिकतया वचनं वदतु सत्यं सत्यं यथार्थ यथार्थवचनानि यथार्थ इति तत्र यथार्थदृष्ट्या वचनानि आवश्यकानि परन्तु तत्र मिथ्या वचनानि मा वदन्तु इति यथार्थदर्शनं वाचि वदतु वदतु निश्चयेन भगवद्गीता श्लोक भगवद्गीते श्लोक अनद्वैतकरं वाक्यं सत्यं जयते स्वाध्यायाभ्यसनं चैव वामयन्तपुच्यते बहु सम्यक् बहु सम्यक् बहु सम्यक् उत्तमम् उत्तमम् तपः बहु सम्यक् अवस्तु महोदय तत् वाङ्मयं तपः अनुद्वेगकरं वाक्यं मनसि उद्वेगः जनयति एतादृशी वाक्यरचना न भवेत् सन्तोष आह्लाददायिवाणी इति बहु सम्यक् बहु सम्यक् न्यावार् अवस्टमहोदय बहु सम्यक् अम्बिकापतिमहोदय भारतमहोदय वदति वा भारतमहोदय उक्तवान् खलु अम्बिकापतिमहोदय वदति वा प्रियवार्ता नास्ति हृदय समान समयार्थं इवस्य वक्तुम् आवश्यकम् अर्थदृष्ट्या समानता परन्तु प्रियं यदा वदामः चेत् तस्य परिणामः अधिकः इतोपि तत्र परिणामदृष्ट्या तस्य वर्धनं भवति सत्यं सत्यं योग्यं बहु सम्यक् भगवत् भगिनी वाक्चातुर्यम् आवश्यकम् अस्ति भगिनी वाक्चातुर्यं <laughs> सत्यं सत्यं <laughs> तदा एव अमात्यकथायामपि वयं दृष्टवन्तः खलु तत् अमात्य अमात्यस्य समीपे एतादृशं वाक्चातुर्य आसीत् अतः सः समान एव अर्थः परन्तु भिन्नप्रकारेण सः उक्तवान् आम् आम् वाक्चातुर्येण उक्तवान् परन्तु वाक्चातुर्यस्य कृते अस्माकं किम् आवश्यकम् अभ्यासस्य आवश्यकता स्वाध्यायस्य आवश्यकता निरन्तरं चिन्तनस्य आवश्यकता एवं ज्ञानस्य आवश्यकता स्तरवर्धनं भवेत् अस्माकं दिने दिने प्रतिदिने स्वाध्याय अभ्यासनम् एव वाङ्मयं तप यथा अवष्टमहोदय तत्र उक्तवान् तथैव प्रतिदिने तत्र किं ज्ञानस्य अधिष्ठानं भवेत् मनसि प्रतिदिने प्रतिदिने प्रतिदिने चिन्तनम् एवं सर्वं भवेत् तदा वाक्चातुर्यस्य वर्धनं भवति <laughs> हाँ। हाँ। बहु सम्यक् भगिनी धन्यवादः भगिनी धन्यवादः अस्तु अम्बिकापति महोदय हा इतोपि रमा भगिनी वक्तुम् इच्छति वा वदतु वदतु बहु बहु अमृतम् इव वचनं शृणो चेत् कृष्णस्य बहु प्रियप्रियकरम् भविष्यति दाईनी वाणी संतोषम आह्लादानीणी सर्वद्लादा हृदय सतोषं जनतादी सतोषजनकवाणी भवि सत्य सत्य अस्त अंबिपतिमोदय शातिमंत्र वदी वापया सुखि सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु कश्चित् दुःखभाद् भवेत् ॐ शान्ति शान्तिशान्तिः हरिः ओम् तत्सद् श्रीगुरुभ्यो नमः हरिः ओम् धन्यवादः धन्यवादः सर्वेषां धन्यवादाः धन्यवादः धन्यवादः भगिनी पुनर्मिलामः न शक्नोमि अग्रिमे बुधवासरे वा आमाम् आम, आम. अस्तु अस्तु चिन्ता मास्तु रेकार्डिङ्ग् श्रुणोतु आं शृणोमि आमां धन्यवादः आम, आम, आम, आम, धन्यवादः पुनर्मिल